परमात्मने नमः यथार्थगीता श्रीमद्भगवद्गीता अथ षोडशोऽध्यायः योगेश्वरस्य भगवतः श्रीकृष्णस्य प्रश्नानाम् प्रस्तुतीकरणस्य स्वकीया एका विशिष्टा शैली वर्तते पूर्वं तु ते प्रकरणस्य विशेषतायाः उल्लेखं कुर्वन्ति येन पुरुषः प्रश्नाभिमुखम् भवेत् आकर्षितः तदनन्तरं स तत्प्रकरणं सुस्पष्टयति उदाहरणार्थं कर्मविषये चिन्तनीयम् स द्वितीयाध्याये प्रेरणाम् अददात् यद् अर्जुन कर्म कुरु तृतीयाध्याये ेतितम् यत् निर्धारितम् कर्म कुरु निर्धारितम् कर्म किमस्ति यज्ञस्य प्रक्रियैव कर्म अस्ति पुनस्तेन यज्ञस्य स्वरूपम् अनुक्त्वा पूर्वम् यज्ञः कुतः आयातः ददाति च इति वर्णितम् चतुर्थाध्याये त्रयोदशचतुर्दशविधिभिः यज्ञस्य स्वरूपं स्पष्टं यस्य विधानं कर्मसमुच्यते अत्र कर्म स्पष्टं भवति यस्य शुद्धार्थः अस्ति योगः चिंतनं आराधना यो समनसेन्द्रियाणाञ्च क्रियया सम्पन्नः भवति अनेनैव प्रकारेण तेन नवमाध्याये दैवासुरी च सम्पदः नाम गृहीतम् उभयोः सम्पदोपरि बलम् ददौ यद् अर्जुन आसुरीस्वभावयुक्ताः माम् तुच्छम् मत्वा सम्बोधयन्ति अहमपि मानवशरीरमेव आधारीकृत्य विराजे कुतो हि इयम् स्थितिः मह्यम् मानवशरीरे एव समुपलब्धा किन्तु आसुरी आसुरीस्वभाववन्तः मूढस्वभाववन्तश्च मां नोपासते यदा तु दैवीसम्पद्युक्ताः भक्तजनाः अनन्यश्रद्धया उपासते। किन्तु एतासां सम्पदां स्वरूपं गठनञ्च इदानीं यावत् न वर्णितं तेन इदानीं षोडशाध्याये योगेश्वरः तासाम् स्वरूपं सुस्पष्टयितुम् संलग्नो भवति यासु प्रथमं प्रथमम् दैवीसम्पदः लक्षणानि सन्ति प्रस्तुतानि श्रीभगवानुवाच ज्ञानयोगव्यवस्थितिः दानम् दमश्च स्वाध्यायस्तपपार्जवम् भयस्य सर्वथा भावः अन्तःकरणस्य शुद्धता तत्त्वज्ञानार्थम् ध्याने दृढा अथवा अचलध्यानम् सर्वस्वस्य समर्पणम् इन्द्रियाणां सम्यक् प्रकारेण दमनम् यज्ञस्य आचरणम् अर्थात् यथा श्रीकृष्णेन चतुर्थाध्याये स्वयं विवेचितम् संयमाग्नौ हवनम् इन्द्रियाग्नौ हवनम् प्राणापानयोः हवनम् अन्ते ज्ञानाग्नौ हवनम् अर्थात् आराधनायाः प्रक्रिया या केवलं मनसः इन्द्रियाणाञ्च आन्तर्क्रियया सम्पद्यते तिलयववेदादिभिः सामग्रीभिः सम्पद्यमानस्य यज्ञस्य गीतोक्तयज्ञेन नास्ति कोऽपि सम्बन्धः श्रीकृष्णः एतादृशम् किमपि कर्मकाण्डं यज्ञं न मेने स्वाध्यायः अर्थात् स्वरूपाभिमुखं अग्रेसरकारकं अध्ययनं। तपः अर्थात् मनसा सहितं सहितमिन्द्रियगणम् इष्टानुरूपम् वर्तनं। तथा आर्जवम् शरीरेन्द्रियसहितान्तःकरणस्य सरलता अहिंसा सत्यमक्रोध त्यागः शान्तिरपैशुनम् दयाभूतेष्वलोलुप्तम् मार्दवम् ह्रीरचापलम् अहिंसा अर्थात् आत्मोद्धारः नाम आत्मान अधोगत प्रापसा कथ्यतेवीति स सधानम कर्म न तदास्याह तदापूर्ण प्रजायाह हननकर्ता वर्णसक निर्माता भवानी आत्मन शुद्ध वर्ण अस्थ पर भ्रमणम वर्णसंक कथ्य आत्मन प्रकृत भ्रमणमे हिंसा तथा आत्मोद्धारह सत्यम अर्था सत्य यिभाषण भाथय इदम वस्त्रम माकमस्त कि सत्यम व इतोऽधिकम् अलीकम् किमपरं भविष्यति यदा शरीरमेव भवतः नास्ति नश्वरमस्ति तदा अस्य आवरकम् वस्त्रम् कथं भवतः वस्तुतः सत्यस्य स्वरूपम् योगेश्वरः स्वयम् वर्णितवान् यत् अर्जुन सत्यवस्तुनः कालत्रयेऽपि कदापि भवति न अभावः अयम् आत्मैव सत्यमस्ति परमं सत्यमस्ति अस्मिन् सत्ये दृष्टिम संधानय क्रोधस्य अनाविर्भावः सर्वस्वस्य समर्पणम् शुभाशुभकर्मफलानां त्यागः चित्तस्य चञ्चलतायाः सर्वथा अभावः लक्ष्यस्य प्रतिकूलं निन्दितकार्यस्य अविधानम् सम्पूर्णप्राणिषु दयाभावः इन्द्रियाणाम् विषयेषु जाते संयोगेऽपि तेषु आसक्तेः अभावः कोमलता स्वलक्ष्यात् विमुखे सति लज्जा व्यर्थचेष्टानाम् सर्वथा अभावः तथा अद्रोहो नातिमानिता भवन्ति सम्पदम् दैवीम् तेजः नाम यद यदेकमात्रेश्वरे चकास्ति तस्य तेजसा जगतः कार्यम् चलति महात्मनः बुद्धस्य दृष्टिपातानन्तरम् एव अङ्गुलिमालस्य विचारे जातं परिवर्तनम् एतत् तत तेजसः एव आसीत् परिणामः येन तेजसा कल्याणं सृजते यद आसीत् महात्मनि बुद्धे अपि च क्षमा धैर्यं शुद्धिः कस्मिन् अपि शत्रुभावाभावः स्वस्मिन् पुजता भावस्य अर्जुन लक्षणं दैवी संपदं प्राप्तस्य अस्ति। अनेन अर्जुनदक्षण तदवीसपद प्राप्त से अेेण्शतिलक्ष वर्णिताधनायापक्वावस्था पुरुषे मिलती आंशिकत सुनिश्चितानि आसुरीसम्पदाप्लावितस्य मनुष्यस्य अपि इमे गुणाः वर्तन्ते किन्तु प्रसुप्ताः भवन्ति तस्मादेव जघन्यपापाचारिणः कृतेऽपि कल्याणस्य अधिकारः वर्तते इदानीम् आसुरीसम्पदः प्रमुखानि लक्षणानि प्रवदति श्रीकृष्णः म्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानम् चाभिजातस्य पार्थसम्पदमासुरी पार्थ पाखण्डः गर्वः अभिमानः क्रोधः कटुवचनम् अज्ञानञ्च इमानि पूर्वोक्तानि लक्षणानि आसुरी सम्पदायुक्तस्य पुरुषस्य सन्ति उभयोः सम्पदोः कार्यम् किमस्ति दैवी सम्पद् विमोक्षाय निबन्धायासुरीमता दैवी उक्तो उक्तोभयोः सम्पदोः दैवीसम्पत्तु विमोक्षाय विशेष विशेषमोक्षार्थम् अस्ति आसुरी आसुरीसम्पच्च बन्धनाय मान्यतां प्राप्तवती अर्जुन त्वं मा कुतो हि त्वं प्राप्तदैवी सम्पद् असि विशेषां मुक्तिं प्राप्स्यसि अर्थात् मां प्राप्स्यसि ताः सम्पदाः क्व तिष्ठन्ति द्वौ भूतसर्गो लोकेऽस्मिन् दैव आसुरेव च आसुरं पार्थ अर्जुन अस्मिन् संसारे जीवानाम स्वभावः द्विविधः भवति देवानामिव तथा असुराणामिव यदा हृदये दैवीसम्पत्कार्यरूपं धारयति तदा मानवः देवता समुच्यते यदा आसुरीसम्पदः भवति बाहुल्यम् तदा मनुष्यः असुरायते सृष्टौ इमे द्वे जाति विद्येते उक्तजातिद्वयान्तर्गतः मानवः कामम् अरबदेशे प्रादुर्भूतो भवेत् कुद्वा ओस्ट्रेलियायाम् कुत्रापि गृहीतजन्मा भवेत् वस्तुतः जातिद्वयान्तर्गतमेव तस्य जन्म इदानीम् यावत् देवानाम् स्वभावः सविस्तरम् वर्णितः सम्प्रति असुराणाम् स्वभावम् मत्तः विस्तारपूर्वकम् आकर्णय प्रवृत्तिवृत्ति जनान न विदुरासुरा न शौचम् नापि न, न सत्यम् तेषु विद्यते अर्जुन असुरगणाः कार्यम् कर्म प्रवर्तितुम् तथा अकर्तव्यकार्यात् निर्वर्तितुमपि न जानन्ति अत एव तेषु न वर्तते शुद्धता न च आचरणम् न सत्यम् समुपलभ्यते तेषाम् पुरुषाणाम् विचाराः कीदृशाः भवन्ति असत्यमप्रतिष्ठम् ते जगदाहुरनीश्वरम् अपरस्परसम्भूतम् आसुरीप्रकृतिशीलाः ते मनुष्याः कथयन्ति यत् जगदाश्रयरहितमस्ति सर्वथा अलीकमस्ति ईश्वरम् विना च स्वयमेव स्त्रीपुरुषयोः संयोगात् उत्पन्नमस्ति अत एव केवलम् भोगानाम् भोगाय एव अस्ति इदम् जगत् अतो व्यतिरिक्तम् अपरम् किमस्ति एताम् दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतो हिता अस्य कोणस्य अवलंबेन मिथ्यादृष्टिकोण स्वभावः यन जाता हा वर्तते ते मंदबुद्धय अपकारिण केवलं मनुष्या विनाशाय एव विनाशाव माश्रित्य दुष्पूरम् दम्भमानमदान्विताः मोहाद्गृहीत्वात् सद्ग्रान् प्रवर्तन्ते शुचिव्रताः ते मनुष्याः दम्भमानमदादियुक्ताः सन्तः प्रकारेण न पूर्ण कामना आश्रय गृह ज्ञान मिथ्यासीताृत्वा अशुभ तथा भ्रष्ट्रताु संसारे प्रवर्तं ते व्रतमपि व्रतमें किन्तु सी पथभ्रष्टा रिमेयाञ्च प्रलयान् तामुपाश्रिताः कामोपभोगपरमा एतावदिति निश्चिताः ते अन्तिमश्वासम् यावत् नाना चिन्ताम् धारयन्तः जीवन्ति विषयाणामुपभोगे तत्परास्ते अलमेतावद आनन्दः इति मन्यन्ते तेषाम् मान्यता भवति यत् यावद्भवेत्सम्भवः भोगस्य सङ्ग्रहश्चयनीयः नातः परम् किमप्यस्ति रायणाः तिहन्ते कामभोगार्थम् आशारूपीषु शताधिकशूलेषु तत्र अर्थात् एकया शूल्या जनाः म्रियन्ते अत्रतु ते शताधिकशूल्यः कामक्रोधे परायणाः विषयभोगानाम् पूर्तये ते अन्यायपूर्वकम् धनादिकम् बहुपदार्थजातम् चेतुम् चेष्टाम् कुर्वन्ति अतः धनार्जनाय ते रात्रिन्दिवसम् असामाजिकम् पदं उत्थापयन्ति अग्रे कथयति इमं प्राप्से थम् भविष्यति पुनर्धनम् ते विचारयन्ति यन्मया अद्येत उपलब्धम् अमुम् मनोरथं प्राप्स्यामि मम सविधे एतावद्धनमस्ति पुनः कदाचित् इयद्धनं भविष्यति असौ मया हतः शत्रुः हनिष्ये चापरानपि ईश्वरोऽहमहं भोगी सिद्ध सः शत्रुः मया व्यापादितः अपरान् अपि शत्रून् व्यापादयिष्यामि अहम् एव ईश्वरस्य ऐश्वर्यस्य च भोक्तास्मि अहम् सिद्धियुक्तः बलवान् सुखी चास्मि आढ्योऽजनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिश इत्यज्ञान अहम् महाधनि महाकुटुम्बवान् अस्मि न कोऽप्यपरः अहं यज्ञं करिष्यामि दानं दास्यामि हर्षं लप्स्ये एतत्प्रकारकाज्ञानेन ते विमोहिताः भवन्ति किं यज्ञः दानञ्च अपि अज्ञानमस्ति अत उपरि सप्तदशतमे श्लोके स्पष्टं कृतमस्ति एवं जातेऽपि ते न विरमन्ति प्रत्युद अनेकभ्रान्ति ते स्वयं मृगया भवन्ति अत उपरि कथयति अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ताः कामभोगेषु नानाप्रकारेण भ्रान्तचित्ताः मोहजाले निबद्धाः विषयभोगेषु अत्यन्तम् आसक्ताः ते दुष्टासुरीस्वभावयुक्ताः मनुष्याः अपवित्रनरके पतन्ति अग्रे कृष्णः स्वयम् वक्ष्यति किमस्ति नरकः आत्मसम्भाविता स्तब्धा धनमानमदान्विता यजन्ते नाम यज्ञैस्ते दम्भेना विधिपूर्वकम् आत्मानम् श्रेष्ठम् धनमानमदयुक्ता भूत्वा ते सगर्वाः मनुष्याः रहितं केवलं नाममात्रैः यज्ञैः सपाखण्डम् यजनं कुर्वन्ति किम् तदेव यज्ञम् कुर्वन्ति यथा कृष्णेनोक्तम् नहि तम् विधिम् परित्यज्य यजन्ते कुतो हि विधिः योगेश्वरेण स्वयम् वर्णितः चतुर्थे अध्याये चतुर्विंशतिश्लोकतः त्रित्रिंशत्तमे श्लोके तथैव दशम षष्ठाध्याये दशमश्लोकतः सप्तदशश्लोकपर्यन्तम् तेन स्पष्टीकृतमस्ति ङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः मामात्मपरदेहेषु त्रद्विषन्तोऽभ्यसूयताः ते परनिन्दाकर्तारः अहङ्कारे बले गर्वे कामनायाम् क्रोधे च परायणाः पुरुषाः स्वस्य परस्य च शरीरे स्थितम् माम् अन्तर्यामिनम् परमात्मानम् द्वेषबुद्ध्या पश्यन्ति शास्त्रविधिना परमात्मनः स्मरणम् अस्ति एकः यज्ञः ते इमम् विधिम् विहाय नाममात्रस्य यज्ञम् कुर्वन्ति यज्ञस्य नाम्ना न किञ्चित् किञ्चित् कुर्वन्तः सन्तः ते स्वस्मिन् शरीरे तथा परस्य शरीरे स्थितम् माम् परमात्मानम् निन्दन्ति ते जनाः द्वेषम् कुर्वन्ति सुरक्षिताश्च भवन्ति किम् एते अपि भविष्यन्ति सुरक्षिताः अत उपरि कथयति नहि द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपाम्यजस्रमशुभान् आसुरिष्वेव योनिषु मत्तः द्वेषकर्तॄन् पापाचारिणः क्रूरकर्माणः नराधमान् अहम् संसारे निरन्तरम् आसुरीयोनिषु पातयामि ये शास्त्रविधिम् परित्यज्य यजन्ते ते पापयोनयः मनुष्येषु अधमाः कथ्यन्ते इमे क्रूरकर्माणः कथिताः संति न अन्ये केऽपि सन्ति अधमाः पूर्वमुक्तमासीत् एतादृशान् अधमान अहम् नरके पातयामि तदेव अत्र कथयति यत् तान् अजस्रमासुरियोनिषु पातयामि एष एव नरकः अस्ति साधारणकारागारयातनापि भवति भयंकरी इह अनवरतमासुरियोनिषु पतनस्य क्रमः कियान् दुःखदोऽस्ति अतः दैवीसम्पदि प्रयत्नशीलेन भवितव्यम् ीम् योनिमापन्ना मूढा जमनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्त्यथमाम् गतिम् कौन्तेय मूर्खाः मनुष्याः जन्मजन्मान्तरम् यावत् आसुरिम योनिम् प्राप्ताः सन्तः माम् न लब्ध्वा पूर्वतः अपि अतिनीचाम् गतिम् लभन्ते तस्यास्ति नाम नरकः पश्यन्तु कुतः नरकस्य आविर्भावः कामः त्मनः क्रोधस्त कामक्रोधलोभाश्च त्रयः इमे नरकस्य मूलद्वाराणि सन्ति इमे आत्मनः नाशकाः सन्ति ताम अधोगतिम् प्रापकाः सन्ति अतः एतेषाम् त्रयाणाम् त्यागः कर्तव्यः एतेषाम् त्रयाणाम् उपरि आसुरीसम्पत् स्थिता वर्तते एतत् त्यागेन अपि लाभः एतैर्विमुक्तः कौन्तेय तमोद्वारये स्त्रिभिर्नर कौन्तेय नरकस्य एतद्वारत्रयेण मुक्तः पुरुषः एव परमकल्याणाय आचरणं कर्तुम् सक्षमो भवति येन सः परमगतिम् अर्थात् मामलभते एतेषाम् कामादिविकारत्रयाणाम् त्यागे सत्येव मनुष्यः नियतं कर्म करोति यस्य परिणामः परमश्रेयोस्ति यश्चास्त्रविधिमुत्सृज्य वर्तते कामकारतः यहा पुरुषः उपर्युक्तशास्त्रविधिम् विहाय अर्थात् तच्छास्त्रम् न किमपि अन्यम् शास्त्रम् इति गुह्यतमम् शास्त्र यत् पञ्चदशतः विंशतिपर्यन्तम् गीता स्वयम् पूर्णशास्त्रम् अस्ति यच्छास्त्रम् श्रीकृष्णेन स्वयमेव प्रत्यपादि तम् विधिम् विहाय यः स्वेच्छया व्यवहरति न सिद्धिम् लभते न च परमगतिम् सुखञ्च तस्माच्छास्त्रम् प्रमाणन्ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहार्हसि अत एवार्जुन त्वदर्थम् अनयोः कर्तव्याकर्तव्ययोः व्यवस्थायाम् अहं किं करवाणि किञ्च न करवाणि अस्यां व्यवस्थायां शास्त्रम् एवैकं प्रमाणमस्ति एवं ज्ञात्वा शास्त्रविधिप्रतिपादितं नियतकर्म एव त्वया कर्तुं योग्यमस्ति तृतीयाध्यायेऽपि योगेश्वरः श्रीकृष्णः नियतं कर्म कुरु इति नियतकर्मोपरि बलं दत्तवान् उक्तवान् च यज्ञस्य प्रक्रियैव तन्नियतङ्कर्मस्ति तच्च यज्ञाराधनायाः विधिविशेषस्य चित्रणमस्ति यं मनसः सर्वथा निरोधं कृत्वा शाश्वते ब्रह्मणि प्रवेशं दापयति अत्रोक्तम् तेन यत् कामक्रोधलोभाश्च नरकस्य त्रीणि प्रमुखद्वाराणि सन्ति एतेषां त्रयाणां त्यागे सति तत्कर्मणः नाम नियतकर्मणः आरम्भो भवति यस्य वर्णनं भूयो मया कृतम् यत् परमश्रेयसः परमकल्याणस्य च प्रदायकम् आचरणम् अस्ति बहिः सांसारिककार्येषु का यो यावान् व्यस्तोऽस्ति तावानेवाधिकाः कामक्रोधलोभाश्च तस्य पार्श्वे सुसज्जिताः विराजन्ते कर्म कीदृशमेवं वस्तु अस्ति यत् कामक्रोधानां एव तस्मिन् प्रवेशो मिलति कर्मणः तदाचरणे जायते सन्निवेशः यः शास्त्रविधिं परित्यज्य स्वेच्छयाचरणं करोति तस्य कृते सुखसिद्धिः परमगतिश्च न सुलभा इदानीं कर्तव्याकर्तव्ययोः व्यवस्थायाम् शास्त्रम् एव एकमात्रप्रमाणमस्ति अतः शास्त्रविध्यनुसारेण कर्माचरणं त्वदर्थं समीचीनमस्ति तच्छास्त्रम् गीता एव अस्ति निष्कर्षः अस्य अध्यायस्य प्रारम्भे योगेश्वरेण श्रीकृष्णेन सविस्तरम् दैवीसम्पदः वर्णनम् कृतम् यस्याम् ध्याने सुस्थितिः सर्वस्वस्य समर्पणम् अन्तःकरणस्य शुद्धिः इन्द्रियाणाम् दमनम् मनसः शमनम् स्वरूपस्य स्मरणदायकम् अध्ययनं यज्ञार्थम् प्रयत्नः मनसा सहितमिन्द्रियाणाम् तापनं, अक्रोधः चित्तस्य शान्तौ भवनं, इत्यादि षड्विंशतिलक्षणानि उक्तानि यानि लक्षणानि इष्टस्यान्तिकम् प्राप्तौ योगसाधनायाम् प्रवृत्ते कस्मिन् साधके सम्भवानि सन्ति आंशिकरूपेण सर्वेषु वर्तन्ते तदनन्तरं तेन आसुरीसम्पदः प्रधानरूपेण पञ्चषाविकाराणां नाम वर्णितम् यथा अभिमानः दम्भः कठोरता अज्ञानम् कटुभाषणम् इत्यादि अन्तेच निर्णयं अदात अदात् यत् अर्जुन दैवी संपदस्तु विमोक्षाय पूर्णरूपेण निवृत्यर्थं संति परमपदस्य प्राप्तेः कारणानि आसुरीसम्पदश्च बन्धनार्थम् अधोगतिप्रदानाय च सन्ति अर्जुन शोकम् मा विधेहि कुतो हि त्वम् प्राप्तदैवीसम्पदः असि इमाः सम्पदः क्व भवन्ति अस्मिन् संसारे मनुष्याणां स्वभावः द्विविधः भवति देवानामिव इव, असुराणामिव च यदा दैवीसम्पदः बाहुल्यं भवति तदा मनुष्यः देववज्जायते यदा चासुरीसम्पदः बाहुल्यं भवति तदा मनुष्यः असुरवज्जायते सृष्टौ केवलम् मनुष्याणाम् एव जातियुगलम् कामम् स कुत्रापि प्रादुर्भवेत् किमपि सम्बोधनम् प्राप्नुयात् तदनन्तरम् तेन आसुरी आसुरीस्वभाववताम् मनुष्याणां लक्षणं सविस्तरं वर्णितम् आसुरीसम्पद्वान् पुरुषः कर्तव्यकर्मणि प्रवर्तितुम् जानाति एव न अकर्तव्यकर्मणो निवर्तितुमपि न जानाति यदा असौ कर्मणि प्रवृत्तः एव न अभवत् तदा तु तस्मिन् न सत्यं भवति न शुद्धिः न च आचरणम् तस्य विचारे जगन्निराश्रयम् ईश्वरं विनापि स्वयं स्त्रीपुरुषयोः संयोगात् समुत्पन्नं बभूव इति अतः केवलम् भोगभोगाय जगदिदम् अतः परम किमस्ति अयम विचारः कृष्णस्यापि काले चलतिस्म स्म पूर्वमपि आसीत् केवलम् चार्वाकेन एव विचारः अयम् प्रचारितः नैतथ्यम् यावज्जनमानसे दैव्याहा आसुर्याश्च सम्पदः पतनोत्थानमस्ति तावत्स्थास्यति स्थास्यति श्रीकृष्णः वदति ते मन्दबुद्धयः क्रूरकर्माणः पुरुषाः सर्वेषाम् अहिताय कल्याणस्य नाशायच संसारे प्रादुर्भवन्ति ते कथयन्ति मम द्वारेण शत्रुः अयं हतः अपरञ्च हनिष्यामि अनेन अर्जुन कामक्रोधवशीभूताः ते पुरुषाः शत्रून् न घ्नन्ति प्रत्युत स्वशरीरे तथा परस्य शरीरे स्थितम् माम् परमात्मानम् प्रति द्रोहम् कुर्वन्ति तर्हि किम् अर्जुनः प्रणङ्कृत्वा जयद्रथादीन् हतवान् यदि हन्ति तर्हि आसुरीसम्पद्युक्तः अर्जुनः परमात्मना सह द्वेषकर्तास्ति यदा तु अर्जुनम् सुस्पष्टम् उक्तवान् श्रीकृष्णः त्वं दैवीसम्पदम् प्राप्तवानसि चिन्तां मा कुरु अत्रापि स्पष्टम् अभवद् यत् ईश्वरस्य निवासः सर्वेषाम् हृदयदेशे वर्तते स्मरणीयमेतत् यत् त्वाम् कश्चित् सततम् निरीक्षमाणः विराजते अतः सदैव शास्त्रनिर्दिष्टायाः क्रियायाः कर्तव्यं आचरणम् अन्यथा दण्डः प्रस्तुतोऽस्ति योगेश्वरेण श्रीकृष्णेन पुनः उदीरितम् यत् आसुरीसम्पद्युताः क्रूराः मनुष्याः मया भुयो भुयो नरके पात्यन्ते नरकस्य स्वरूपम् किमस्ति तदोक्तवान् भूयो भूयः नीचाधमयोनिषु पतनम् परस्परम् पर्यायौ स्तः एतदेव नरकस्य स्वरूपम् कामक्रोधलोभाश्च नरकस्य त्रीणि प्रमुखद्वाराणि सन्ति एतेषु द्वारत्रयेषु आसुरीसम्पदः सन्ति समाश्रिताः एतेषाम् त्रयाणाम् त्यागोत्तरम् तस्य कर्मणः आरम्भो भवति यस्य मया वारं वारम् चर्चा कृता किमपि वस्तु अस्ति यस्य आरम्भः नाञ्च त्यागानन्तरम् एव भवति सांसारिककार्येषु का समर्यादम् सामाजिकव्यवस्था निर्वाहस्य चिंतने ये सन्ति व्यस्ताः कामक्रोधलोभादयः तेषाम् समीपम् अतिसुसज्जिताः समायान्ति वस्तुतः एतेषाम् त्यागेन परमात्मनि प्रवेशदायके निर्धारितकर्मणि प्रवेशो मिलति अतः अहं किम् करोमि किं न करोमि एतत् कर्तव्याकर्तव्ययोः शास्त्रमेव प्रमाणमस्ति तच्च शास्त्रम् किम् इयमेव गीताशास्त्रम् किमन्यैः शास्त्रविस्तरैः अत एव एतच्छास्त्रनिर्धारितम् कर्म नाम विशेषम् अर्थात् यथार्थं कर्म त्वं विधेहि अस्मिन् अध्याये योगेश्वरेण श्रीकृष्णेन दैव्यासुरीसम्पदोः सविस्तरं वर्णनं विहितम् तयोः स्थानं मानवस्य हृदयम् इति आदिदेश तस्य च फलम् अब्रवीत् अतः ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः इति श्रीमत्परमहंसपरमानन्दशिष्यस्वामी अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः हरिः ॐ तत्सत्